ैकोनचत्वारिंशः सर्गः मणिम् दत्त्वा ततः सीता हनुमन्तमथा ब्रवीत् अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः मणिम् दृष्ट्वा तु रामो वै त्रयाणाम् वीरो जनन्या मम च राज्ञो दशरथस्य च स भूयस्त्वम् समुत्साहचोदितो अस्मिन् कार्यसमुत्साहे प्रचिन्तय यदुत्तरम् त्वमस्मिन् कार्यनिर्योगे प्रमाणम् हरिसत्तम तस्य चिन्तययो यत्तो दुःखक्षयकरो भवेत् हनूमन्यत्नमास्थाय दुःखक्षयकरो भव सतथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः शिरसावन्द्यवैदेहीम् गमनायोपचक्रमे ज्ञात्वा सम्प्रस्थितम् देवी वानरम् पवनात्मजम् बाष्पगद्गदयावाच मैथिलीवाक्यमब्रवीत् हनुमन्कुशलम् ब्रूयाः सहितौ रामलक्ष्मणौ सुग्रीवम् च सहामात्यम् सर्वान् वृद्धांश्च वानरान् ब्रूयास्त्वम् वानरः श्रेष्ठकुशलम् धर्मसंहितम् यथा च स तारयति राघवः अस्माद्दुःखाम्बुसंरोधा त्वम् समाधातुमर्हसि जीवन्तीम् माम् यथा रामः सम्भावयति कीर्तिमान् तत्त्वया हनुमन् वाच्यम् वाचा धर्ममवाप्नुहि नित्यमुत्साहयुक्तस्य वाचः श्रुत्वा मयेरिताः वर्धिष्यते दाशरथेः पौरुषम् मदवाप्तये मत्सन्देशयुतावाचस्त्वत्तश्रुत्वैव राघवः पराक्रमे मतिम् वीरो विधिवत्संविधास्यति सीतायास्तद्वचः श्रुत्वा हनूमान्मारुतात्मजः शिरस्यञ्जलिमादाय वाक्यमुत्तरमब्रवीत् क्षिप्रमेष्यति काकुत्स्थो हर्यरक्षप्रवरैर्वृतः यस्ते युधि विजित्यारीन् शोकम् न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः अप्यर्कमपि पर्जन्यमपि वैवस्वतम् यमम् स हि सोढुम् रणे शक्तस्तव हेतोर्विशेषतः स हि सागरपर्यन्ताम् महीम् साधितुमर्हति त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनी तस्य तद्वचनम् श्रुत्वा सम्यक् सत्यम् सुभाषितम् जानकी बहु मेनेतम् वचनम् चेदमब्रवीत् तरस्तम् प्रस्थितम् सीता वीक्षमाणा पुनः पुनः भर्तृस्नेहान्वितम् वाक्यम् सौहार्दादनुमानयत् यदि वा मन्यसे वीरवसैकाहमरिन्दमा कस्मिंश्चित् संवृते देशे विश्रान्तश्वो गमिष्यसि मम चैवाल्पभाग्यायाः सान्निध्यात्तम वानर अस्य शोकस्य महतो मुहूर्तम् मोक्षणम् भवेत् ततो हि हरिशार्दूल पुनरागमनायतु प्राणानामपि सन्देहो मम तव दर्शनजः शोको भूयो माम् परितापयेत् दुःखा अयम् च वीरसन्देहस्तिष्ठतीव ममाग्रतः हा। सुमहांस्त्वत्सहायेषु हर्यर्क्षेषु हरीश्वरा कथम् नु तरिष्यन्ति महोदधिम् तानि हर्यर्क्षसैन्यानि तौ वा नरवरात्मजौ त्रयाणामेव भूतानाम् सागरस्ये हलङ्घने तव वा वा तदस्मिन् कार्यनिर्योगे वीरैवम् दुरतिक्रमे किम् समाधानं समाधानम् त्वम् हि कार्यविदाम्बरः काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः यशस्यस्ते फलोदयः बलैः समग्रैर्युधि माम् रावणम् जित्यसंयुगे विजयी स्वपुरम् यायात्तस्य सदृशम् बलैस्तु सङ्कुलाम् कृत्वा लङ्काम् परबलार्दनः माम् नयेद्यदिति काकुत्स्थस्तस्य सदृशम् भवेत् तद्यथा तस्य विक्रान्तमनुरूपम् महात्मनः भवेदाहवशूरस्य तथा त्वमुपपादय तदर्थोपहितम् वाक्यम् प्रश्रितम् हेतुसंहितम् विषम्य हनुमान् शेषम् वाक्यमुत्तरमब्रवीत् देवि हरिक्षसैन्यानामीश्वरः प्लवताम्बरः सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः स वा नरसहस्राणाम् कोटिभिरभिसंवृतः तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः मनःसङ्कल्पसम्पाता या नोपरीनाधस्ताति सज्जते गति नर्म सु सीदंती महत्स्वेजसा असत्महोत्सागरधरा धरा, धरा। प्रदक्षिणीकृता भूमिर्वायुमुसारि मद्शिष्टाश्च्यासा मत् प्रत्यवर कशिन्ना सुग्रीवस सन्नौ अहं ताव प्राप्त किं पुनस्ते महाबला प्रकृष्टा प्रेश्यंते प्रश्यीतनादेन देवी शोको व्यपैतपातेन तेल का हरयूथ पा मम पृठगत चंद्र सूर्या विबोदित सकाश महासंघो नृसींहा तौहि हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ आगम्य नगरीम् लङ्काम् सायकैर्विधमिष्यतः सगणम् रावणम् हत्वा राघवो रघुनन्दनः त्वामादाय वरारोहे स्वपुरीम् प्रतियास्यति। यास्यति तदाश्वसि भवत्वं ते कालकाङ्क्षिणी न चिरा द्रक्ष्यसे रामम् प्रज्वलन्तमिवानलम् निहते राक्षसेन्द्रे च स पुत्रामात्यबान्धवे त्वम् समेष्यसि रामेण शशाङ्केनेव रोहिणी क्षिप्रम् त्वम् देवि शोकस्य पारम् द्रक्ष्यसि मैथिली रावणम् चैव रामेण द्रक्ष्यसे निहतम् बलात् एवमाश्वास्य वैदेहीम् हनूमान् मारुतात्मजः गमनाय कृत्वा वैदेहीम् पुनरब्रवीत् तमरिघ्नम् कृतात्मानम् क्षिप्रम् द्रक्ष्यसि राघवम् लक्ष्मणम् च धनुष्पाणिम् लङ्का द्वारमुपागतम् नखदम्ष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् वानरान् वारणेन्द्राभान् क्षिप्रम् द्रक्ष्यसि सङ्गतान् शैलाम्बुलनिकाषानाम् लङ्कामलयसानुषु नर्दताम् कपि मार्ये यूथान्येकषः स तु मर्मणि घोरेण ताडितो मन्मथेषुणा न शर्म लभते रामः सिंहार्दित इव द्विपः रुदमादेवि शोकेण मा भूत्ते मनसो भयम् शचीवभर्त्राशक्रेण सङ्गमेष्यसि शोभने अग्न्यमारुत कल्पौ तौ भ्रातरौ तव संश्रयौ नास्मिंश्चिरम् वत्स्यसि देवि देशे रक्षोगणैरध्युषितेति रौद्रे न प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये ोनच्श